ब्रह्माण्डपुराणं पूर्वभागम् अध्यायं 26 लिङ्गोत्पत्तिकथनं हृषय ऊचुः महादेवस्य माहात्म्यं प्रभुत्वं च महात्मनः श्रोतुमिच्छामहे सम्यगैश्वर्यगुणविस्तरम् सूद उवाच पूर्वं त्रैलोक्यविजये विष्णुना समुदा धृतं बलिं महावीर्यं त्रैलोक्याधिपतिं पुरा प्रनष्टेषु तु दैत्येषु प्रहृष्टे आथा शचीपतौ प्रभुं द्रष्टुं सर्वे देवासनातनम् यत्रास्ते विश्वरूपात्मा क्षीरो दस्यमसीपतः सिद्धा ब्रह्मर्षयो यक्षा गन्धर्वाप्सरसाङ्गणाः नागादेवर्षयश्चैव नद्यः सर्वे च पर्वताः अभिगम्यमहात्मानं स्तुवन्ति पुरुषं हरिम् त्वं दादा त्वं च कर्तासि त्वं लोकान् सृच्यसि प्रभो त्वत्प्रसादा प्राप्तं त्रैलोक्यमव्ययम् असुराश्च सर्वे बलिर्बद्धश्च वै त्वया एवमुक्तसुरैर्विष्णसिद्धैश्च परमर्षिभिः प्रत्युवाच तदा देवान् पुरुषोत्तमः श्रूयतामभिधास्यामि कारणं सुरसतमाः यः स्रष्ठा सर्वभूतानां कालकालकरप्रभुः येनाहम्ब्रह्मणा सार्धं सृष्टा लोकाश्च मायया तस्यैव च प्रसादेन आदौ सिद्धत्वमागतः पुरा मया। उदरस्ते तमसी चा्यक्रेत्रैलोक्य्रसी मे शुभूदेशुको हम सहस्रा सहस्राक्ष सहस्रपाद संग सहस्राक्षसहस्र पद श्रगदीशयिद विमलेंभ ये तस्मिन्नन्तरे दूरात् पश्यामि ह्यमिद प्रभम् शतसूर्यप्रदि काश्यं ज्वलन्तं स्वेन तेजसा चतुर्वक्त्र महायोगं पुरुषं काञ्चनप्रभं कृष्णाजिनधरं देवं कमण्डलुविभूषितम् निमेषान्तरमात्रेण प्राप्तोऽसौ पुरुषोत्तमः ततो मामब्रवीद्ब्रह्मा सर्वलोकनमस्कृतः कस्त्वं कुतो वा किञ्चेह तिष्ठसे पदमे विभो अहं कर्तास्मि लोकानां स्वयंभूर्विश्वतो मुखः एवमुक्तस्तदा तेन ब्रह्मणाहमुवाच तम् अहं कर्ता हि लोकानां संहर्ता च पुनः पुनः एवं सम्भाषणमाणौ तु परस्पर जयैषिर्णौ उत्तरां ज्वालां तदस्तामालोक्य विस्मितौ च तथा नखाः तेजसा च बलेनाथशाज्योधिकृताञ्जली वर्धमानां तदा ज्वालामत्यन्तपरमाद्भुताम् परमाद्भुताम् ज्वालां ज्वालाम् चाहं च दिवं भूमिं च निर्भृत्य तिष्ठन्तं ज्वालमण्डलं तस्या मध्ये तु पश्यावो विपुलभ्रमं प्रादेशमात्रमव्यक्तं लिङ्गं परमदीप्तिमद न च तत्काञ्चनं मध्ये न शैलं न च राजतं अनिर्देश्यमचिन्त्यं च लक्ष्यालक्ष्यं पुनः पुनः ज्वालामालासहस्राढ्यं विस्मयं परमद्भुतं महदा तेजसायुक्तं वर्धमानं भृशं तथा ज्वालामाला तथं न्यस्तं सर्वभूतभयङ्करम् घोररूपिणमत्यर्थं भिन्दं तमिव रोदसी ततो माम् अब्रवीब्रह्मा अधो गच्छ त्वमाशु वै अन्धमस्य विजानीवो लिङ्गस्य तु महात्मनः अहमूर्ध्वं गमिष्यामि यावदन्तोऽस्य दृश्यते तदा कृत्वा गद ऊर्ध्वमधश्च तदो ततो वर्षसहस्रं तु ह्यहं पुनरधो गतः न पश्यामि च तदो भेदश्चाहं तदोभवम् तथैव ब्रह्माह्युध्वच तस्य लब्धवान् समागदो मया सार्ध तत्रैव च महाभसि ततो विस्मयमापन्नौ भिदौ तस्य महात्मनः मायया मोहिदौ तेन नष्टसंज्ञै व्यवस्थितौ तदो ध्यानरतौ तत्र चेश्वरं सर्वतो मुखम् प्रभवं निधनं चैव लौकानां प्रभुमव्ययम् प्रह्वाञ्जलिपुटौ भूत्वा तस्मै शर्वाय चूलिने। महाभैरवनादाय भीमरूपाय दंष्टिणे अव्यक्तायाधमहदे नमस्कारं प्रकुर्वहे नमोऽस्तु देर्लोकसुरेश देव ते दे भूतपदे महात्मन् नमोऽस्तु ते शाश्वतसिद्धयोगिने नमोऽस्तु ते सर्वजगत्प्रतिष्ठित परमेष्टि परं ब्रह्मत्वक्षरं परमं पदं ज्येष्ठस्त्वं वामदेवश्च रुद्रस्कन्दशिवप्रभुः त्वम् यस्त्वं वषत्कारस्त्वमोङ्कारः परन्तपः स्वाहाकारो नमस्कारसंस्कारः सर्वकर्मणाम् स्वथाकारश्च यज्ञश्च व्रतानि नियमास्तथा वेदालोकाश्च देवाश्च भगवानेव सर्वशः आकाशस्य च शब्दस्त्वं भूतानां प्रभवाव्ययः भूमौ गन्धो रसश्चाप्सु तेजोरूपं महेश्वरः वायोस्पर्शश्च देवेश वपुश्चन्द्रमसस्तथा बुद्धौ ज्ञानं च देवेश प्रकृतेर्बीजमेव च संहर्ता सर्वलोकानां कालो मृत्युमयोऽन्तकः त्वं धारयसि लोकां स्त्रीं त्वमेव सृजसि प्रभो पूर्वेन वदनेन त्वमिन्द्रत्वं प्रकरोषि वै दक्षिणेन तु लोकान् संक्षिपसे पुनः पश्चिमे नुवेण वरुणस्थो न संशय उत्तरेण दुवक् सोमस्वसमेक बहुधा दोका प्रभवाप्यय आदिवसवद्र मत सहाश्विन साध्या विद्याधरा नागा तपोधनाः वालकिल्या महात्मानस्तपःसिद्धाश्च सुव्रताः त्वत्प्रसूदादेवेश ये चान्ये नियतव्रताः उमासीदासिनी वाली कुहूर् गायत्र्य लक्ष्मी कीर्ति लज्जा क्रिया चैव, चाचा देवी सरस्वती, सरस्वतीसूदा देश संध्या रात्रि तथ सूर्यायुता नामयुधप्रभाव नमोऽस्तु ते चन्द्रसहस्रगौर नमोऽस्तु ते वज्रपिनाकधारिणे नमोऽस्तु दे देव हिरण्यवाससे नमोऽस्तु दे भस्मविभूषिताङ्ग नमोऽस्तु ते कामशरीरनाशन नमोस्तु ते देवहिरण्यरेदसे नमोऽस्तु देवहिरण्यवाससे नमोस्तु ते देवहिरण्ययोने नमोऽस्तु ते देवहिरण्यनाभ देवहिरण्यरेदसे नमोऽस्तु नेत्रसहस्रचित्र नमोऽस्तु दे देव हिरण्यवर्ण नमोऽस्तु दे देव हिरण्यकेश नमोऽस्तु दे देव हिरण्यवीर नमोऽस्तु दे देव हिरण्यदायिने नमोऽस्तु दे देव हिरण्यनाद नमोऽस्तु देव हिरण्यनाद नमोऽस्तु देव देवनागबाणे नमोऽस्तु दे ते शङ्करनीलकण्ठ एवं संस्तूयमानस्तु व्यक्तो भूत्वा महामतिः देवदेवो जगद्यो निःसूर्यकोडिसमप्रभः आबभाषे कृपाविष्टो महादेवो महाद्युतिः वक्त्रकोटिसहस्रेण ग्रसमान इवाम्बरं कम्बुग्रीवः सुज्झरो नानाभूषणभूषितः नानारत्नविजित्रागो नानामाल्यानुलेपनः पिनाकपाणिर्भगवान् सुरपूज्यस्त्रिशूलधृक् व्यालयज्ञोपवीरी च सुराणामभयङ्करः दुन्धुभिस्वरनिर्घोषः पर्जन्यनिनदोपमः मुक्तो हासस्तदा तेन सर्वमापूरयन् जगद तेन शब्देन महदा च वाम्भिधौ महात्मनः अधो वाचमहादेवः प्रितोऽहं सुरसत्तमौ पश्यतां च महायोघं भयं सर्वप्रमुच्यतां युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौष्यं मे दक्षिणो बाहुर्ब्रह्मालोकपितामहः वामो बाहुश्च मे विष्णुर्नित्यं युद्धेष्वनिर्जितः प्रीतोकं युवयोः सम्यग् वरं दद्यां यधैप्सितं ततः प्रहृष्टमनसौ प्रभोः अभ्रूतां च महादेवं प्रसादाभिमुखं स्थितम् यदि प्रीतिसमुत्पन्ना यदि देयो वरश्च दे, दे भक्तिर्भवतु नौ नित्यं त्वयि देव सुरेश्वर देवदेव उवाच एवमस्तु महाभागौ सृजतां विपुलाः प्रजाः एवमुक्त्वा स भगवांस्तत्रयि वातरथाद्विभुः येष एवमयोक्तो वः प्रभावस्तस्य धीमदः ये दद्धि परमं ज्ञानमव्यक्तं शिवसंज्ञमचिन्त्यं च पश्यन्ति ज्ञानचक्षुषः तस्मै देवाधिदेवाय नमस्कारं प्रकुर्महे महादेव नमस्तेऽस्तु महेश्वर नमोऽस्तु ते सुद उवाच यद गदा सर्वे सुरास्वं स्वं निवेशनं नमस्कारं प्रकुर्वाणा शङ्कराय महात्मने इमं स्तवं पठिध्यस्तु चेश्वरस्य महात्मनः कामांश्च लभते सर्वान् पापेभ्यश्च प्रमुच्यते एतत् सर्वं न विष्णुना प्रभविष्णुना महादेवप्रसादेन ह्युक्तं ब्रह्मसनातनं ये दद्वत्सर्वमाख्यातं मया माहेश्वरं बलम् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयोनुषङ्गपादे लिङ्गोत्पत्तिकथनं नाम षड्विंशतितमोऽध्यायः ओ